यदा श्रौषम् न विदुर्मामकास्तान् प्रच्छन्नरूपान् वसतः पाण्डवेयान् विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् कीचकानाम् वरिष्ठम् निषूदितम् भ्रातृशतेन सार्धम् भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय सञ्जय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 यदा श्रौषम् निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात् प्रच्युतस्य अक्षौहिणीः सप्तयुधिष्ठिरस्य तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् माधवम् वासुदेवम् सर्वात्मना पाण्डवार्थे निविष्टम् यस्येमाम् गाम् विक्रममेकमाहुस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य अहम् द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् लोकहिताय कृष्णम् शमार्थिनमुपयातम् कुरूणाम् शमम् कुर्वाणमकृतार्थम् च यातम् तदा नाशंसे यदाश्रौषम् कर्ण दुर्योधनाभ्याम् बुद्धिम् कृताम् निग्रहे केशवस्य तम् चात्मानम् बहुधा दर्शयानम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् आर्ताम् पृथाम् सान्त्विताम् केशवेन तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् मन्त्रिणम् वा सुदेवम् तथा भीष्मम् शान्तनवम् च तेषाम् भारद्वाजम् चाशिषोऽणुब्रुवाणम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् कर्ण उवाच भीष्मम् नाहम् योत्स्ये युध्यमाने त्वयिति हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् वासुदेवार्जुनौ तौ तथा धनुर्गाण्डीवमप्रमेयम् त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् कश्मलेनाभिपन्ने रधोपस्थे सीदमाने जुनेवई कृष्णम् लोकान् दर्शयानम् शरीरे तदानाशं से विजयाय सञ्जय यदा श्रौषम् भीष्मममित्रकर्शनम् निघ्नन्तमाजावयुतम् रथानाम् नैषाम् कश्चिद् बध्यते ख्यातरूपस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् चापगेयेन सङ्ख्ये स्वयम् मृत्युम् विहितम् धार्मिकेण तच्चाकार्षः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् भीष्ममत्यन्तशूरम् हतम् पार्थेनाहवेष्व प्रधृष्यम् शिखण्डिनम् पुरतः स्थापयित्वा तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् शरतल्पेशयानम् वृद्धम् वीरम् सादितम् चित्रपुङ्खैः भीष्मम् कृत्वा सोमकानल्प सेषांस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् शान्तनवेशयाने पानीयार्थे चोदितेनार्जुनेन भूमिम् भित्त्वा तर्पितम् तत्र भीष्मम् तदा नाशंसे विजयाय सञ्जय यदा वायुश्चन्द्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमा जयाय नित्यम् चास्माश्वापदाभीषयन्ति तदा से विजयाय सञ्जय यदा द्रोणो विविधानस्त्रमार्गान् निदर्शयन् समरेचि त्रयोधी न पाण्डवान् श्रेष्ठतरान् निहन्ति तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् चास्मदीयान् महारथान् व्यवस्थितानर्जुनस्यान्तकाय संसप्तकान् निहतानर्जुनेन तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् भित्त्वा सौभद्रम् वीरमेकं प्रविष्टं तदानाशं से विजयाय सञ्जय यदाभिमन्युम् परिवार्य बालम् सर्वे हत्वा हृष्टरूपा बभूवुः महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषमभिमन्युम् निहत्य हर्षान् क्रोधादुक्तम् सैन्धवे चार्जुनेन तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् सैन्धवार्थे प्रतिज्ञाम् प्रतिज्ञाताम् तद्वधायार्जुनेन सत्याम् तीर्णाम् शत्रुमध्ये च तेन तदा नाशंसे विजयाय सञ्जय यदा पुनर्युक्त्वा वासुदेवम् प्रयातम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् वाहनेष्वक्षमेषु रथोपस्थेतिष्ठता पाण्डवेन सर्वान् योधान् वारितानर्जुनेन तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् नागबलैः सुदुःसहम् द्रोणानीकम् ययुधानम् प्रमथ्य या तम् वार्ष्णेयम् यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् कर्णमासाद्यमुक्तम् वधाद्भीमम् कुत्सयित्वा वचोभिः धनुष्कोट्या तुद्यकर्णेन वीरम् तदा नाशंसे विजयाय सञ्जय यदा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः अमर्शयन् सैन्धवम् देवराजेन दत्ताम् दिव्याम् शक्तिम् व्यंसिताम् माधवेन घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय यदा श्रौषम् कर्णघटोत्कचाभ्याम् युद्धे मुक्ताम् सूतपुत्रेण शक्तिम् ययावध्यः सव्यसाची तदा से विजयाय सञ्जय